नारायणीयं दशकं तर्टि एय्ट् मीटर् वसन्ततिलकम् आनन्दरूपभगवन्नयि देवतारे प्राप्ते प्रदीप्तभवदङ्गनिरीयमाणैः कान्दिव्रजैरिवघनाघनमण्डलैर्द्यामावृण्वदी विरुरुचे किलवर्षवेला आशासु शीतलतरासु पयोदतो यैराशासिताप्तिविवशेषु च सज्जनेषु नैशापरोदयविधौ निशिमध्यमायां क्लेशापहस्त्रिजगदां त्वमिहा विराशीः बाल्यस्पृशा वपुषा धनुषा विभूतिरुद्यकसा शंघारी वारी जगदा पिभासीन मेखा सिन परलेगे पक्षस्थली लक्ष्मी, मन्दाक्षलक्षितकडाक्षविमोक्षभेदैः तन्मन्दिरस्य कलकंस कृदामलक्ष्मीमुन्मार्जयन्निव विरेजिध वासुदेव शौरिस्तुधीरमुनिमण्डलचेदसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् आनन्दबाष्प पुलगोगमगर्गदार्द्रस्तुष्टाव दृष्टिमदरन्दरसम्भवन्तं देवप्रसीदपरपूरुष तापवल्ली निर्लून दात्रसमनेत्रकलाविलासिन् खेदानपा गुरु कृपा गुरुभिक्कटाक्षैरित्यादितेन मुदितेन चिरं नुदो भूः मात्रा च नेत्रसलिलास्तृत गात्रवल्ल्यास्तोत्रैरभिष्टुदगुह्णः करुणालयस्त्वं प्राचीनजन्मयुगलं प्रतिबोध्यताभ्याम् मा दुर्गिरा दधितमानुष बालवेषम् त्वत्प्रेरितस्तदनुनन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः त्वां हस्तयोरधृत चित्तविधार्यमार्यैरम्भोरु हस्तकलहंस किशोररम्यम् जादा तदा पशुपसत्मनि योगनिद्रा निद्रा, निद्रा विमुद्रितमधाकृतपौरलोकं त्वत्प्रेरणात्किमिह स्वयं व्यखडिसङ्घटितैः सुगाढं शेषेण भूरिभणवारिदवारिणाधस्वैरं प्रदर्शितवधो मणिदीभिदेन त्वां धारयन् स खलु धन्यतमःप्रदस्ते सोऽयं त्वमीशममनाशय रोगवेगान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द